अथ षडशीतितमः सर्गः अथ तस्यामवस्थायाम् लक्ष्मणम् रावणानुजः परेषामहितम् वाक्यमर्थसाधकमब्रवीत् यदेतद्राक्षसानीकम् मेघश्यामम् विलोक्यते एतदायोध्यताम् शीघ्रम् कपिभिश्च शिलायुधैः तस्यानीकस्य महतो भेदनेयत लक्ष्मणा राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति सत्त्वमिन्द्राशनिप्रख्यैः शरैरवकिरण् परार् अभिद्रवाशु यावद्वैनैतत्कर्म समाप्यते जहि वीरदुरात्मानम् मायापरमधार्मिकम् रावणिम् क्रूरकर्माणम् ववर्षशरवर्षेण राक्षसेन्द्रसुतम् प्रति रक्षाः शाखामृगाश्चैव द्रुवप्रवरयोधिनः अभ्यधावन्तसहितास्तदनीकमवस्थितम् राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः अभ्यवर्तन्त समरे कपि सैन्यजिघांसः स सम्प्रहारस्तु मुलः कपि रक्षसा नमः शब्देन महतालङ्कान्नादयन्वै समम् ततः शस्त्रैश्च विविधाकारैश्चितैर्बाणैश्च पादपैः उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् राक्षसा वानरेन्द्रेषु विकृताननबाहवः निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः अभीजघ्रर्ज्रमरे सर्वराक्षसा वृक्षवानर मुख्य महाकाय महा रक्षसा युध्यम महत्यजात स्वनीकंषं तो श्रुवा शत्रुर्दित उदतिषतुर्धर्ष सकर्मण्यनुष्ठ वृक्षांधकारागत्य जात क्रोध सरावि आरुरोहरथम् सज्जम् पूर्वयुक्तं सुसंयतम् स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः जनचयोपमहा नयनो भीमो बभौ मृत्युरिवान्तकः दृष्ट्वैवतु रथस्थन्तम् पर्यवर्तत तद्बलम् रक्षसाम् भीमवेगानाम् लक्ष्मणेन युयुत्सताम् तस्मिंस्तु काले हनुमानरुजत्सदुरासदम् धरणीधर सङ्काशो महावृक्षमरिन्दमः महा स राक्षसानाम् तत्सैन्यम् कालाग्निरिव निर्दहन् चकारबहुभिर्वृक्षैर्निःसञ्ज्ञम् युधिवानरः विध्वंसयम् तम् तरसा दृष्ट्वैव पवनात्मजम् राक्षसानाम् सहस्राणि हनूमन्तमवाकिरन् शितशूलधराः शूलैरसिभिश्चासि शक्तिहस्ताश्च शक्तिभिः पट्टिषैः पट्टिषायुधाः परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः शतशश्च शतघ्निभिरायसैरपिमुद्गरैः घोरैः परशुभिश्चैव भिन्दिपालैश्च राक्षसाः मुष्टिभिर्वज्रकल्पैश्च तलैरशनि सन्निभैः अभिजघ्नः समासाद्य समन्तात्पर्वतोपमम् तेषामपि च सङ्क्रुद्धश्चकारकदनम् महत् सददर्शकपि श्रेष्ठमच लोपममिन्द्रजित् श्रूदमानमसन्त्रस्तममित्रान्पवनात्मजम् स सारथिमुवाचेदम् या हि यत्रैशवानरः क्षयमेव हि नः यत्र समारुतिः वहन् परमदुर्धर्षम् स्थितमिन्द्रजितम् रथे सोऽभ्युपेत्यशरान् खड्गान् पट्टिशांश्च परश्वधान् अभ्यवरिषतदुर्धर्षः कपि मूर्धनिराक्षसः तानि शस्त्राणि घोराणि प्रतिगृह्य समारुतिः रोषेण महताविष्टो वाक्यम् चेदमुवाचः युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते वायुपुत्रं समासाद्य न जीवन् प्रति यास्यसि बाहुभ्याम् सम्प्रयुध्यस्व यदि मे द्वन्द्वमाहवे वेगम् रक्षसाम् वरः हनूमन्तम् जिघाम् सन्तम् समुद्यतशरासनम् रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः यः स एष रथमास्थाय हनुमन्तम् जिघांसति तम प्रतिमसंस्थानैः शरैः शत्रुनिवारणैः जीवितान्तकरैर्घोरैः सौमित्रे रावणिञ्जहि इत्येवमुक्तस्तु तदा महात्मा विभीषणे नारिविभीषणेन ना। ददर्शतम् पर्वत सन्निकाशम् रथस्थितम् भीमबलम् दुरासदम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षडशीतितमः सर्गः